अथ चतुस्त्रिंशः सर्गः ततः कमलपत्राक्षश्यामो निरुपमो महान् उवाचरामस्तम् सूतम् पितुराख्याहि मामिति स रामप्रेषितः क्षिप्रम् सन्तापकलुषेन्द्रियम् प्रविश्य सूतो निःश्वसन्तम् ददर्शः उपरक्तमिवादित्यम् भस्मच्छन्नमिवानलम् तटाकमिव निस्तोऽयमपश्यज्जगतीपतिम् आबोध्यचमहाप्राज्ञः परमाकुलचेतनम् राममेवानुशोचन्तम् सूतः प्राञ्जलिरब्रवीत् तम् वर्धयित्वा राजानम् पूर्वम् सूतो जयाशिषा भयविक्लवया वाचा मन्दयाश्लक्ष्मया ब्रवीत् अयम् सपुरुषव्याघ्रो द्वारितिष्ठति ते सुतः दत्वा सर्वम् चैवोपजीविना सत्त्वाम् पश्यतु भद्रन्ते रामः सत्यपराक्रमः सर्वान् सुहृद आपृच्छ्य त्वाम् भीदानीम् गमिष्यति महारण्यम् तम् पश्य जगती पते राजगुणैः सर्वैरादित्यमिव रश्मिभिः धर्मात्मा गाम्भीर्यात्सागरोपमः आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच सुमन्त्रानय मे दारान्ये केचिदिह मामकाः दारैः परिवृतः राघवम् सोऽन्तः पुरमतीत्यैव स्त्रियस्तावाक्यमब्रवीत् आर्योह्वयति वो राजा गम्यताम् तत्रमाचिरम् एवमुक्ता स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया प्रचक्रमुस्तद्भवनम् भर्तुराज्ञायशासनम् अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः कौसल्याम् परिवार्याथ शनैर्जग्मुर्धृतव्रताः आगतेषु च दारेषु समवेक्ष्य महीपतिः उवाच राजातम् सूतम् सुमन्त्राणयमे सुतम् ससूतो राममादाय लक्ष्मणम् मैथिलीम् तथा जगामाभिमुखस्तूर्णम् सकाशम् जगतीपतेः स राजापुत्रमायान्तम् दृष्ट्वा चारात्कृताञ्जलिम् उत्पपातासनात् तूर्णमार्तस्त्रीजनसंवृतः सोऽभिरुद्राववेगेन रामम् दृष्ट्वा विशाम् पतिः तम सम्प्राप्य दुःखार्तः लक्ष्मणश्च महारथः विसन्ध्यमिव दुःखेन सशोकम् तथा स्त्रीसहस्रनिनादश्च सञ्जज्ञे राजवेश्मनि हा हा रामेति सहसा भूषणध्वनिमिश्रितः तम् परिष्वज्य बाहुभ्याम् तावुभौ रामलक्ष्मणौ पर्यङ्के सीतया सार्धम् रुदन्तः समवेशयन् मुहूर्तस्य लब्धसञ्ज्ञम् महीपतिम् उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम् आपृच्छे महाराज सर्वेषामीश्वरोऽसिनः प्रस्थितम् दण्डकारण्यम् पश्य त्वम् कुशले नमा माम् लक्ष्मणम् चानुजानीः सीता चान्वेतुमाम् वनम् कारणैर्बहुभिस्तथ्यैर्व्यमाणो न चेच्छतः अनुजानीः सर्वान्नः शोकमुत्सृज्यमानद लक्ष्मणम् माम् च सीताम् च प्रजापतिरिवात्मजान् प्रतीक्षमाणमव्यग्रमनुज्ञाम् जगतीपतेः उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम् अहम् राघव वरदानेन वरदाने नमोहितः। त्वमेवाद्य भव राजा निगृह्यमा एवमुक्त्वा नृपतिना रामो धर्मभृताम् वरः प्रत्युवाचाञ्जलिम् कृत्वा पितरम् वाक्यकोविदः भवान् वर्षसहस्राय पृथिव्या नृपते पतिः अहम् त्वरण्ये वत्स्यामि नमे राज्यस्य काङ्क्षिता नव वर्षाणि वनवासे विहृत्यते पुनः पादौ ग्रहीष्यामि प्रतिज्ञाम् तेन राधिपा रुदन्नार्तः प्रियम् सत्यपाशेन संयुतः कैकेय्याचोऽव्यमानस्तु मिथो राजा श्रेयसे वृद्धयेतात पुनरागमनाय च गच्छ स्वारिष्टमव्यग्रः पन्था नमकुतो भयम् न हि सत्यात्मनस्तात धर्माभिमनसस्तव सन्निवर्तयितुम् बुद्धिः शक्यते रघुनन्दना अद्यत्विदानीम् व्रजनीम् पुत्रमागच्छ सर्वथा एकाहम् दर्शनेनापि साधु तावच्छराम्यहम् मातरम् माम् च सम्पश्यन्वसे मामद्यशर्वरीम् तर्पितः सर्वकामैस्त्वम् श्वः काल्ये साधयिष्यसि दुष्करम् क्रियते पुत्र सर्वथा राघव प्रिया त्वया हि मत्प्रियार्थम् तु वनमेवमुपाश्रितम् न चैतन्मे प्रियम् पुत्र शपे सत्येन छन्नया चलितस्त्वस्मै स्त्रिया भस्माण्निकल्पया वञ्चनाया तु लब्धामेताम् त्वम् निस्तर्तुमिच्छसि अनया वृत्तसादिन्याकैकेय्याभिप्रचोदितः न चैतदाश्चर्यतमम् यत्त्वम् ज्येष्ठः सुतो मम अपानृतकथम् पुत्रपितरम् कर्तुमिच्छसि अथ रामस्तदा श्रुत्वा पितरार्तस्य भाषितम् लक्ष्मणेन सह भ्रात्रा दीनो गुनान सजना या नगुणा को में शस्ता प्रदा अपक्रमणमे तकमृणे इय सरा सजन समाकुला मया मैं वसुधा वसुरा भरताय प्रदीयता वनवासकता यस्तु चेदचल यस्त युद्धेवत्त कैकेय्यद दीयताम् निखिलेनैव सत्यस्त्वम् भव पार्थिव अहम् निदेशम् भवतो यथोक्तमनुपालयन् चतुर्दशसमावत्स्येवने वनचरैः सह मा विमर्शो वसुमती भरताय प्रदीयता न हिमेकाङ्क्षितम् राज्यम् सुखमात्मनिवा प्रियम् यथा निदेशम् कर्तुम् वै तवै वरघुनन्दना अपगच्छतु ते न हि क्षुभ्यति दुर्धर्षः समुद्रः सरिताम् पतिः नैवाहम् राज्यमिच्छामि न सुखम् न च मेदिनी नैव सर्वाणि मान् कामान्न स्वर्गम् न च सत्यमिच्छामि नानृतम् पुरुषर्षभा प्रत्यक्षम् तव सत्येन सुकृतेन च ते मया तातस्थातुम् क्षणमपि प्रभो स शोकम् धारय विपर्ययः अर्थितो ह्यस्मि कैकेय्या वनम् गच्छेति राघव मया चोक्तम् व्रजामीति तत्सत्यमनुपालये मा चोत्कण्ठान् प्रथादेव वने रंस्यामहे वयम् प्रशान्तहरिणाकीर्णे ना नानाशकुनिनादिते पिता हि दैवतम् तात ता देवतानामपि स्मृतम् तस्माद्दैवतमित्येव करिष्यामि पितर्वचः चतुर्दशसु वर्षेषु गतेषु नृपसत्तमा पुनर्द्रक्ष्यसि माम् प्राप्तम् सन्तापोऽयम् विमुच्यता येन संस्तम्भनीयोऽयम् सर्वो बाष्पकलो जनः सत्त्वम् पुरुषशाद्दोल किमर्थम् विक्रियाम् गतः पुरम् च मही च केवला मया विसृष्टा भरता यदीयत अहम् निदेशम् भवतो न पालयन् वनम् गमिष्यामि चिराय सेवितुम् मया विसृष्टाम् भरतो महीमिमाम् स शैलखण्डाम् स पुरोपकाननाम् शिवासुसीमास्वनुषास्तु केवलम् त्वया यदुक्त तथा पार्थिवधियते मनो महत्सु यथानि देशे तव शिष्टसम्मते व्यपैतदुःखम् तव मत्कृते न घ तदद्य नैवा न घराज्यमव्ययम् न वसुधाम् न मैथिलीम् न चिन्तितम् त्वामनृतेन योजयन् तथा फलानि मूलानि च भक्षयन् वे वनम् प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः एवम् स राजा व्यसनापि पण्ठस्तापेन दुःखेन च पीड्यमानः आलिङ्ग्य पुत्रम् सुविनष्ट नैव च चेष्ट किञ्चित् देव्यः समस्तारुहृदः रुदंस मंत्रोपूर्चा हाहात बभूव सर्व इशे श्रीमद् रे वाक आदि का्योध्या चतस्िंश